एकोनचत्वारिन्शदधिकशतमोऽध्यायः वैशम्पायनौ वाच श्रुत्वा पाण्डुसुतान् वीरान् बलोद्रिक्तान् महौजसः धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः धृतराष्ट्रो ब्रवीद्वचः धृतराष्ट्रौ वाच उत्सक्ताः पाण्डवानित्यम् तेभ्योऽसूये द्विजोत्तम तत्र मे कणिकत्वम् ममा चक्ष्व करिष्ये वचनम् तव वैशम्पायन उवाच सप्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः उवाच वचनम् तीक्ष्णम् राजशास्त्रार्थदर्शनम् शृणुराजन्निदम् तत्र प्रोच्यमानम् मया नघ न मेभ्य सूया नित्यमुद्यत दण्डस्यान् नित्यम् विवृत पौरुषः अच्छिद्रश्छिद्रदर्शी स्यात् नित्यमुद्यत दण्डाधिभृशमुद्विजते तस्मात् सर्वाणि कार्याणि दण्डेनैव विधारयेत् नास्यच्छिद्रम् परः पश्येत् छिद्रेण परमन्वियात् गूहेत् कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ना सम्यक् कृतकारी स्यात् उपक्रम्य कदाचन कण्टको ह्यपि दुश्छिन्न चिरम् वधमेव प्रशंसन्ति शत्रूणामपकारिणाम् सुविदीर्णम् सुविक्रान्तम् सुयुद्धम् सुपलायिताम् आपद्यापदि च कुर्वीत नावज्ञेयोरिपुस्तात् दुर्बलोऽपि कथञ्चन अल्पोऽप्यग्निर्वनम् कृत्स्नम् कृष्णं संशयात् अन्धः स्यात् अन्धवेलायाम् बाधिर्यमपि चाश्रयेत् कुर्यात्तृणमयम् चापम् शयित मृगशायिकाम् सान्त्वदिभिरुपायैस्तु हन्याच्छत्रुम् वशे स्थितम् दया न शरणागत इत्युत निरुद्विग्नो हि भवति नः ताज्जायते भयम् हन्यादमित्रम् दानेन तथा पूर्वापकारिणम् हन्यात् त्रीण् परपक्षस्य सर्वशः मूलमेवादितश्चिन्द्यात् परपक्षस्य नित्यशः ततः सहायांस्तत्पक्षान् सर्वांश्च तदनन्तरम् छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो कथम् नु शाखास्तिष्ठेरम् छिन्नमूले वनस्पतौ एकाग्रस्यादविवृतो नित्यम् विवरदर्शकः राजन् नित्यम् सपत्नेषु नित्योद्विघ्नः समाचरेत् अज्ञाधानेन यज्ञेन काषायेण जटाजिनैः लोकान् विश्वासयित्वैव ततो लुम्पेद्यथा वृकः अङ्कुशम् शौचमित्याहुरर्थानाम् उपधारणे आनाम्यफलिताम् शाखाम् पक्वं पक्वम् प्रशातयेत् फलार्थोऽयम् समारम्भो लोके स्कन्धेन यावत्कालस्य पर्ययः ततः काले भिन्द्याद्घटमिवाश्मनि अमित्रो न विमोक्तव्यः कृपा न तस्मिन् कर्तव्या हन्यादेवापकारिणम् हन्यादमित्रम् सान्त्वेन तथा दानेन वा पुनः तथैव भेददण्डाभ्याम् सर्वोपायैः प्रशातयेत् धृतराष्ट्रौ वाच कथम् सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः अमित्रः शक्यते हन्तुम् तन्मे ब्रूहि यथा तथम् कणिकौ वाच शृणुराजन् यथा वने निवसतः पुरा जम्बुकस्य महाराजनीति अथ कश्चित् कृत प्रज्ञः शृगालः स्वार्थ पण्डितः सखिभिर्न्यवसत् सार्धम् व्याघ्राकुव्रुक बभ्रुभिः ते ततो वै भक्षयिष्यामः सर्वे मुदितमानसा जम्बुकस्य तु तद्वाक्यम् तथा चक्रः समाहिता मूषिका भक्षितैः पादैर्मृगम् व्याघ्रोऽवधीत्तता दृष्ट्वैवाचेष्टमानम् तु भूमौ मृगकलेवरम् स्नात्वा गच्छत भद्रम् वो रक्षामीत्याह जम्बुकः शृगालवचनात्तेऽपि गताः सर्वे नदीम् ततः सचिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः अथा जगाम तु स्नात्वा व्याघ्रो महाबलः ददर्श जम्बुकम् चैव चिन्ताकुलितमानसम् व्याघ्रौ वाच किम् शोचसि महाप्राज्ञत्वम् नो बुद्धिमताम्बरः अशित्वा पिशितान्यद्य विहरिष्यामहे वयम् जम्बुकौ वाच शृणु मे त्वम् महाबाहो यद्वाक्यम् मूषितोऽब्रवीत् धिक्बलम् मृगराजस्य मयाद्यायम् मृगो हतः मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति मतो भक्ष्यम् न